धर्मे स्थितो धर्मसुतो महात्मा स्वयम् चेदम् कथयत्विन्द्रकल्पः ईशो वाते वाक्यादस्य क्षिप्रमेकं भजस्व सर्वे कौरवेया सभायां कौरवेयाः सभायाम् दुःखान्तरे वर्तमानास्तवैव न विब्रुवन्त्यार्यसत्त्वा यथावत् पतिंश्च ते समवेक्ष्याल्पभाग्यान् वैशम्पायन उवाच ततः सभ्याः कुरु राजस्य तस्य वाक्यम् सर्वे प्रशशंसुस्तथोच्चैः चेला वेधांश्चापि चक्रुर्नदन्तो हा हेत्यासीदपि चैवार्तनादः श्रुत्वा तु वाक्यम् सुमनोहरं तद्धर्षश्चासीत् कौरवाणाम् सभायां सर्वे चासन् पार्थिवाः प्रीतिमन्तः कुरुः धार्मिकं धार्मिकम् पूजयन्तः युधिष्ठिरम् ते सर्वे समुदैक्षन्त पार्थिवाः किं वक्ष्यति धर्मज्ञ इति साची कृताननाः नु वक्ष्यति बीभत्सु रजितो युधि पाण्डवः भीमसेनोयमौ चोभौ भृशम् कौतूहलान्विताः